म्भायमानाकल्याणि वसिष्ठस्याथनन्दिनि आगम्याभिमुखी पार्थतस्थौ भगवदुन्मुखी भृशञ्च ताड्यमाना वै न जगामाश्रमात्ततः वसिष्ठ उवाच शृणोमि ते रवं भद्रे विनदन्त्याः पुनःपुनः ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि किङ्कर्तव्यं मया तत्र क्षमावान् ब्राह्मणो गन्धर्व उवाच सा भयानन्दिनी तेषां बलानां भरतर्षभ विश्वामित्रभयोद्विघ्नावसिष्ठं समुपागमत् गौरुवाच कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत विश्वामि बलैर्घोरैर्भगवन् किमुपेक्षसे गन्धर्व उवाच नन्दिन्यामेवं क्रन्दन्त्यां धर्षितायां महामुनिः न चुक्षुभे तदाधैर्यान्न च धृतव्रतः वसिष्ठ उवाच क्षत्रियाणां बलं तेजोब्राह्मणानां क्षमा बलं क्षमा मां भजते यस्माद् गम्यतां यदि रोचते